नित्य आदे परस्य कार्तिकस्य स्वानिमलादेशौ विदचोन् एज एभ्यः सादेशे शैत्यन्द्रतमः वृन्दपदान्तस्य नित्य दे परस्य अनेकाशि करस्य स्थानिवधादेशो न अचस्मिन् पूर्वविधौ अचस्मिन् तु नविधौ अचापरस्मिन् तु नविधौ अचिन्तु नविधौ स्थानि वदादेशो न विधौ अचस्मिन् पूर्वविधौ स्थानि ी पूर्व अजापरस्मिन् पूर्वमिनौ न पदान्तर्गिर्वचन वरे यलोप स्वर स्वर्णानुस्वार दीर्घश्चो न पदान्तर्निर्वचन वरे यलोप न पदान्तचन वरेय लोपा स्वरणानुस्वारीर्धौ अचरस्मिन् पूर्वविधौ अचरस्मिन् पूर्वविधौ अचरस्मिन् पूर्वविधौ अचौ अचरस्मिन् पूर्वविधौ स्थानिवधादेशो न विधौ स्थानिवदादेशो न अतः परस्मिन् पूर्वविधौ अचापर ोपम् स्वरसमर्णानुस्वादम् दीर्घश्च विदृशो अतः परस्मिन् पूर्वविधौ नापकान्न विरोच चनवचनतापदाचनाोक सवरणानुसार वरे य जश्चर विदुषु दीर्घ जश्चर विदुषु दीर्घ जश्चर विदुषु विदुषु विदुषु दीर्घ जश्चर विदुषु दीर्घ जश्चर विदुषु दीर्घ जश्चर विदुषु स्वर सवर्णानुस्वार दीर्घजश्चर विदुषु स्वर सवर्णानुस्वार दीर्घजश्चर विदुषु स्वरसवर्णानुस्वार दीर्घजश्च स्वरसवर्णानुसार दीर्घश्च विदिशु वरेय लोक स्वरसवर्णानुसार वरेयलोप स्वरसवर्णानुस्वारा दीर्घजश्च विदुषु नापदान्त निर्वचने चे निर्वचने चे निर्वचने चे निर्वचने चे निर्वचने चि निर्वचने चि निर्वाचने चे निर्वचने चे निर्वचने चे निर्वचने चि निर्वचने चे स्वर समरणानुस्वार दीर्घजश्च अचरस्मिन् पूर्वविधौ न पदान्तान वरेण लोपा स्वरणानुस्वार चारविषु निर्वचने चे निर्वचने चे निर्वचने चे अदर्शनं लोपः निर्वचने चे अदर्शनं लोपः निर्वचन प्रत्ययस्य लुक्ष्लु नृपः लुप्ष्लुपः लुक्षुलुपः लुक्षुलुपः प्रत्य लुक्ष्लुपः प्रत्ययस्य लुक्ष्लुपः प्रत्ययस्य लक्षुलुपः अदर्शनम् लोपः प्रत्ययस्य लुक्ष्लुपः अदर्शनम् लोपः प्रत्ययस्य लुक्ष्लुरूपः अदर्शनम् लोपा प्रत्ययस्य लुक्षुष्णुरूपः अदर्शनम् लोपः प्रत्ययस्य लुक्ष्णुरूपः अदर्शनम् लोपा प्रत्ययस्य लुक्ष्णुरूपः अदर्शनम् लोपा प्रत्ययस्य लुक्ष्णुरूपः द्विर्वचने द्वि अदर्शनं लोपः प्रत्ययस्य लुक्ष्णुरूपः अदर्शनम् लोपा प्रत्ययस्य लुक्ष्लुरुपः अदर्शनम् लोपा प्रत्ययस्य लुक्ष्लुरुपः न पदान्तनिर्वचनमरेय लोप स्वरसमर्णानुस्वाद दीर्घजा विदिषु निर्वचनेषु अदर्शनम् लोपः प्रत्ययस्य लुक्ष्णुरूपः पदान् द्विर्वचनवरेण लोपः स्वरसवरणानुस्वार दीर्घजश्च विदुषु द्विर्वचने च अदर्शनम् लोपः प्रत्ययस्य विष्णुपः स्थानिपदा देशो लल्विधौ अचापदस्मिन् पूर्वविधौ न पदान्त द्विर्वचनवरेलोपम् स्वरसवर्णानुस्वारम् दीर्घजश्च विदुषु निर्वचने चि अदर्शनं लोपः तृतीयस्य लो श्लोकः स्थानिवदादेशो न विधौ अचापरस्मिन् पूर्वविधौ न पदान्त निर्वचन वर्यलोपरणानुसार दीर्घजश्चर्विदुषु निर्वचने चि लोपः प्रत्ययस लुक्ष्लूलुपः स्थानिवदा देशो न विविधौ अचापरस्मिन् पूर्वविधौ नापदान्ता द्विर्वचनवलेयलोप स्वरसवर्णानुस्वार दीर्घजश्चर्विदुषु निर्वचने चि अदर्शनम् लोपः लुक्ष्लूलुपः प्रत्ययस्य लोक्ष्लूलुपः विदशोन्त्यात्परः ये च इघ्रस्वादेशे षष्ठी हाने योगा स्थानेन्तरतमः पुरन्त्रपरः अलोन्त्यस्य निच्च आदे फलस्य अनेकाश्चित् सर्वस्य हानिवदादेशो नर्विधम् अतः परस्मिन् पूर्वविधम् न पदान्तद्विर्वचनमलेयलोप स्वरसमर्णानुस्वारम् दीर्घश्चरविधिषु निर्वचनेऽपि अदर्शनम् लोपः प्रत्ययस्य ते लूक्ष्मूपः स्वादेशे षष्ठिस्थाने योगा स्थानेन्दर्गमः पुरन्नपदा अलोदिरस्य गिरिश्च आदेश अनेकाचित् सर्वस्य स्थानिवदादेशौ अचापरस्मिन् अदर्शनम् लोपः प्रत्यस्य लुक्स्पः प्रत्ययस्य प्रत्ययस्य लुक्स्लुरूपः श्रीसर्वमस्थानम् सुदनभंसकस्य न वेति विभाषाम् एकणः सम्प्रसारणम् आतन्तौ करितम् विनतोन्त्यात्परः एत इघ्रस्वादेशे षष्ठी स्थानी योगा स्थानेऽन्तरतमः गृहपदः अलोन्त्यस्य नित्य आदे पदस्य अनेकाश्चित् सर्वस्य सानिपदादेशो न विधौ अजापरस्मिन् पूर्वविधौ न पदान्तनिर्वचनपदेयलोप स्वरसवर्णानुस्वार वीर्जश्च विदिषु निर्वचने च अदर्शनं लोप कृते सु श्रीसर्वनामस्थानं ये लोपस्वरसवरणानुस्वार दीर्घ जश्चर विदुषु त्रिर्वचने जी अदर्शनं लोपः प्रत्ययस्य लुप्लुपः प्रत्ययस्य लुप्लुरूपः प्रत्ययस्य लुप्स्लरूपः प्रत्ययस्य लुप्स्लूपः अधशब्दानुशासनम् अहिं ह्रीक् I, I, I, I, vndau <laughs> saalyash विद्या a